श्रीमद्भागवतमहापुराणं चतुर्सुस्कन्धम् अष्टमोऽध्यायः ॐ नमो भगवते वासुदेवाय मन्त्रेणादेन देवस्य कुर्याद्द्रव्यमयीं बुध सपर्यां विविधैर्द्रव्यै देशकालविभागत्वेन सलै शुचिभिर्माल्यै वन्यैमूलफलादिभिः स्ताङ्कुरां शुकैश्चार्चेत् तूलस्याप्रिया प्रभुं लब्ध्वा दव्यमयि मर्चां चित्यं वादेशु वार्चयेत् आभृतात्मा मुनीशान्तो यत वाेक्षावतारचरितये अचिन्त्य निजमाययां करस्यत्योत्तमश्लोकदध्यायेदधिमम् भगवतो परिचर्या भगवतो यावत्स्य पूर्वमिसेविताः सा मन्त्रहृदयेनैव प्रयुञ्जान्मन्त्रपुमृतये एवं कायेन मनसा वत्सा च मनोगतं परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया पुंसाम मायिनां सम्यङ् भजतां भाववर्धनः तेयोति सत्यभिम्मतं यद्धर्मादिसुद्देहिनां विरक्तश्चेन्द्रियरतो भक्तियोगेन भूयसा तं निरन्तरभावेन भजेताद्धा विमुक्तये इत्युक्तस्न्तं परिक्रम्य प्रणम्य ययो मधुवनं पुण्यं हरेश्चरणचर्चितं तपोवनं गते तस्मिन् प्रविष्टोऽन्तपुरं मुनिः र्हितार्हणको राज्ञा सुखासीन उदाचतम् नारदवाच राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता किं वा रिष्यते कामो धर्मो वार्थेन संयुतः राजवाच श्रुतो मे बालको ब्रह्मन्त्रयणेन करुणात्मना निर्वासित पञ्चवर्ष स मात्रा महान् कविः अप्यनाथं वने ब्रह्मण् मामस्मादन्त्यर्भकम् मृकाः श्रान्तं शयालं क्षितं परिम्लालमुखाम्बुजम् अहो मे बद्धौरात्मं श्रीजितस्योपसारय योऽङ्कं प्रेम् नारुरुक्षन्तं नाभ्यनन्दम् असत्तमः नारदुवाच मामाशुचस्तवं स्वतनयं देवगुप्तं विशाम्पते तत्प्रभावम् अभिज्ञाय प्राङ्क्ते यद्यशो जगन् दुष्कुरं कर्मकृत्वा कृत्वा लोकपालैरपि प्रभु एष्यद्य चिरतो राजन् यथो विपुलीयस्तव मैत्रिवाच इति देवर्षिणा प्रोक्तं विशुद्ध जगति पतिः राजलक्ष्मीमनादित्य पुत्रमेवान्वचिन्तयत् तत्राभिषिक्त पोश्य विभावरिं समाहितपरिचरदृस्यादेशेन पुरुषम् तिरात्रान्ते तिरात्रान्ते कपित्थबदराशनः आत्मवृत्यनुसारेण मासंन्येऽर्चयन् हरिन् द्वितीयं च तथा मासं षष्ठे षष्ठेर्भको दिरे त्रिपर्णादिभिषिणैः कृतान्दोऽभ्यर्चयं द्विभुं तृतीयं चालयन्मासं नवमे नवमे हनि अम्भक्थ उत्तमश्लोकमुपाधावसमाधिनां चतुर्थमपि वै मासं द्वादश द्वादशे हनि वायुभक्षो ज्वासोऽध्यायन्देवमधारयत पञ्चमे मासिनुप्राप्ते यदश्वासो नृपात्मज ध्यायन् ब्रह्मपदैकेन च स्थौताडु विन्द्रिवाचलः सर्वतो मन आकृस्य हृदीभूतेन्द्रियाशयं ध्यायन् भगवतो रूपं नाद्राचेन्किञ्चनापरम् आधारं महदादीनां प्रधानपुरुषेश्वरं यदैकपादेन स पार्थिवार्भुकस्थौ सङ्गुष्ठं निपीडितामही न नाम तद्राधमिन्धेन्द्रतिधिष्ठिता तरेव सव्येतरतपदे पदे, पदे। तस्मिन्नभ्य ध्यायते विश्वमात्मनो द्वारं निरुध्या सुमनन्यया धिया लोकान् नृच्छ्वासनिपीडितावृतं श लोकपाला शरणं ययुर्हरिम् देवावुचो नैवं विदामो भगवन्प्राणरोधं चराचरस्याकलसत्प्रधाम्नः विधेहि तन्नो वृजनाद्विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यं श्रीभगवान्वाच मा भेष्टबारं तपसो दुरत्या निवर्तयिष्ये यति यात प्रतियात सुधां यतो यतो हि व प्राणनिरोध आसे दौतानपादिर्मे सङ्गतात्मा इति श्रीमद्भागवते महापुराणे प्रपञ्चां सयितायां तदुर्सृङ्गे ध्रुचरितेष्टमोऽध्यायः